सर्गः स सागरमनादृश्यमतिक्रम्य महाबलः त्रिकूटस्य तटे लङ्काम् स्थितस्वस्थो ददर्शः तः पुष्पवर्षेण वीर्यवान् अभिवृष्टस्ततस्तत्र बभौ पुष्पमयो हरिः योजनानाम् शतम् श्रीमाम् स्तीर्त्वाप्युत्तमविक्रमः अनिश्वसम् कपिस्तत्र नग्नानिमधिगच्छति शतान्यहम् योजनानाम् क्रमेयम् सुबहून्यपि किम् पुनः संख्यातं शतयोजनं शतयोजनम् स तु वीर्यवताम् श्रेष्ठः प्लवतामपि चोत्तमः जगामवेगवाल्लङ्काम् लङ्घयित्वा महोदधिम् शाद्वलानि च नीलानि गन्धवन्ति वनानि च मधुमन्ति च मध्येन जगामनगवन्ति च शैलांश्च तरु सञ्छन्नान् वनराजीश्च पुष्पिताः अभिचक्राम तेजस्वी हनूमान् प्लवगर्षभः स तस्मिन्न चले तिष्ठन् वनान्युपवनानि च सनगाग्रे स्थिताम् लङ्काम् ददर्श पवनात्मजः सरलान् कन्निकारांश्च खर्जूरांश्च सुपुष्पितान् प्रियालान्मुचुलिन्दांश्च कुटजान् केतकानपि प्रियङ्गून् गन्धपूर्णांश्च नीपान् सप्तच्छदांस्तथा करवीरांश्च पुष्पितान् पुष्पभारनिबद्धांश्च तथा मुकुलितानपि पादपान् विहगाकीर्णान् हंसकारण्डवाकीर्ना वापी पद्मोत्पलावृताः आक्रीडान् विविधान् रम्यान् विविधांश्च जलाशयान् सन्ततान् विविधैर्वृक्षैः सर्वर्तुपलपुष्पितैः उद्यानानि च रम्याणि ददर्शकपिकुञ्जरः समासाद्य च लक्ष्मीवान् लङ्काम् रावणपालिताम् परिखाभिः स पद्माभिः स्वोत्पलाभिरलङ्कृता सीतापहरणात्तेन रावणेन सुरक्षिता समन्ताद्विचरद्भिश्च राक्षसैरुग्रधम्बभिः काञ्चनेनावृताम् रम्याम् प्राकारेण महापुरी ग्रहैश्च गिरिसङ्काशैः शारदाम्बुदसन्निभैः पाण्डुराभिः प्रतोलीभिरुच्याभिरभिसंवृता अट्टालकशताकीर्णाम् पताका ध्वजशोभिताम् तोरणैः काञ्चनैर्दिव्यैर्लता पङ्क्तिविराजितैः ददर्श हनुमान् लङ्काम् देवो देवपुरीमिव गिरिमूर्ध्नि स्थिता लङ्काम् पाण्डुरैर्भवनैः शुभैः ददर्श स पालिताम् राक्षसेन्द्रेण निर्मिताम् विश्वकर्मणा प्लवमानामिवाकाशे ददर्श हनुमान् कपिः वप्राकारजघनाम् विपुलाम्बुवनाम्बरा शतघ्नीशूल के शान्तामट्टालकावतम् सका मनसेव कृताम् लङ्काम् निर्मिताम् विश्वकर्मणा द्वारमुत्तरमासाद्य चिन्तयामास वानरः कैलासनिलयप्रख्यमालिखन्तमिवाम्बरम् वाकाश मुश्रितनोत्तम सपूर्ण राक्षसैर्घोर्नागैर्भोगवतीचि सुकृता कुबेराध्युषिता पुरा दंष्ट्राभिर्बुशूर शूलपट्टिशपाणि रक्षिताक्षसैर्घोर गुहावाशीषरीव तस्याश्च महतीम् सागरं सागरम् च निरीक्ष्य सः रावणम् चरिपुम् घोरम् चिन्तयामास वानरः आगत्या पीह हरयो भविष्यन्ति निरर्थकाः न हि युद्धेन वै शक्या जेतुम् सुरैरपि इमाम् त्वविषमाम् लङ्काम् दुर्गाम् रावणपालिताम् प्राप्यापि सुमहाबाहुः किम् करिष्यति राघवः अवकाशो नसाम नस्तु राक्षसेश्वभिगम्यते न दानस्य न ना भेदस्य नैव युद्धस्य दृश्यते चतुर्नामेव हि गतिर्वाणराणाम् तरस्विनाम् वालिपुत्रस्य नीलस्य मम धीमतः यावज्जानामि वैदेहीम् यदि जीवति वा तत्रैव चिन्तयिष्यामि दृष्ट्वा ताम् ततः स चिन्तयामास मुहूर्तम् कपिकुञ्जरः गिरे शृङ्गे स्थितस्तस्मिन् रामस्याभ्युदयम् ततः अनेन मया न शक्या रक्षसाम् पुरी प्रवेष्टम् महौजसो महावीर्या बलवन्तश्च राक्षसाः वञ्चनीया सर्वे जानकीम् परिमार्गता लक्ष्या्येण रूपेण रात्रो लुरी मैयालम प्रवे मे कृत्यं साधय महत्म तादी ता दृष्ट् दुराधर्षा सुरा सुरासुर हनूमांचिंतमस विश्व से मुहुर्मुहु कश्येय मैथिजात्मज अदृष्टो राक्षसेन्द्रेण रावणेन दुरात्मना न विनश्येत्कथम् का कार्यम् रामस्य एकामे एकामेकस्तु पश्येयम् रहिते जनकात्मजा भूताश्चार्था विनश्यन्ति देशकालविरोधिताः विक्लवम् दूतमासाद्यतमः सूर्योदये यथा अर्थानर्थान्तरे बुद्ध्यम् निश्चितापि न शोभते घातयतीह कार्यामा विनश्येत कथम कार्य वैक्ल्यम न कथ भवत्घनमचद्रे कथ नु न भूथ मयि दृष्टे तो रक्षो भी राम सेमन भवद्यर्थमद कार्यम रावण न ही शक्य क्वचित्थम्ञाते नाक्षसै अपि राक्षसरूपेण किमुतान्येन केनचित् ना वायुरप्यत्र नाज्ञातश्चरेदिति मतिर्मम न ना ह्यत्रा विनाशमुपयास्यामि भर्तुरर्थश्च हास्यति तदहम् स्वेन रूपेण रजन्याम् लङ्कामभिपतिष्यामि राघवस्यार्थसिद्धये रावणस्य पुरीम् रात्रौ प्रविश्य सुदुरासदा प्रविश्य भवनम् सर्वम् द्रक्ष्यामि जनकात्मजा इति निश्चित्य हनुमान् सूर्यस्यास्तमयम् कपिः तदा वीरो वैदेह्यादर्शनोत्सुकः सूर्ये रात्रौ देहम् सङ्क्षिप्य मारुतिः वृषदंशकमात्रोऽथ बभूवाद्भुतदर्शनः प्रदोषकाले हनुमाम् स्तूर्णमुत्पत्यवीर्यवान् प्रविवेषपुरीम् रम्याम् प्रविभक्तमहापथा प्रासादमाला वितताम् स्तम्भैः काञ्चन सन्निभैः शतकुम्भनिभैर्जालैर्गम्भर्वनगरोपमा सप्त भौमाष्टभौमैश्च सददर्श महापुरीम् तलैस्फटिक सकीर्ण काभूषित वैदूमणिचिश्च मुक्ता तैस्त शुशुभता रक्षसा कांचनाचिरा तोरणा च रक्षसा लंका मुद्योतयासु सर्वतंकृता अचिंत्याभुताकारा दृष्ट् लंका महाक आसीद् विषण्णो हृष्टश्च वैदेह्यादर्शनोत्सुकः स पाण्डुरा विद्ध विमानमालिनीम् महार्घजाम्बूलद जालतोरणशस्विनीम् रावण बाहु पालिताङ्क्षपाचरैर्भीम बलैः पालिता। ज्योत्सा वितानेन वितत्य लोकानुत्तिष्ठतेनेकसहस्र रश्मिः शङ्ख प्रभम् क्षीर मृणालवर्णमुद्गच्छमानम् व्यवभासमानम् ददर्श इत्यार्षे श्रीमद् रामायणे आदिकाव्ये सुन्दरकाण्डे द्वितीयः